त्येणावद् दशकम् मार्कण्ठेयचरित्रम् त्रैगुण्याद् भिन्नरूपम् भवति हि ही भुवने हीनमद्योत्तमम् यद् ज्ञानम् श्रद्धा च कर्ता पचतिरपि सुखम् कर्मसाहारभेधा त्वत्क्षेत्रत्वन्निषेवादितो यदिह पुनस्त्वत्परम् प्राहुर्नैर्गुण्यनिष्ठम् तदनुभजनतो पङ्क्षुसिद्धो भवेयम् त्वय्येवन्यस्तचित्त सुखमयि विचरन् सर्पचेष्टात्वदर्धम् त्वद्भक्तै सेव्यमानान् अपि चरितचरान् आश्रयन् पुण्यदेशान् दस्यौ विप्रे मृगादिष्वपि च सममतिर्मुष्यमानावमान स्पर्धासूयाधिदोष सततम किल भूतेषु सम्भूजयेत्वाम् त्वद्भावो यावदेषु स्फुरति न विचतम् तावदेवम् ह्युपास्थिम् कुर्वन् जागत्य भूते विकसते वन्मयोऽहम् चरेह्यम् त्वद्धर्मस्यास्य तावत् किमपि न भगवन् प्रस्तुतस्य प्रणा च तस्मात् सर्वात्मनैव प्रदिशमविव भक्तिमार्गम् अनोज्ञम् तम् चैनम् भक्तियोगम् साध्योगग्यम दिष्ट त्यम तव चरण बेशजाव मकंडे हि पूर्व गणग निगदित्वादशाच सेविवा वत्सर वा तव भटनिवहे द्रावयामासमृत्युम् मार्कण्डेयेश्चिरायो सकलु पुनरपि त्वत्परपुष्पभद्रा तीरे निन्ये तपस्यन् अतुलसुकरते षट्तुमन्वन्तराणि देवेन्द्रः सप्तमस्तम् सुरयुवतिमरुन् मन्मथैर्मोहयिष्यन् योगोष्मप्लुष्यमाणैर्न तु पुनरजगत् त्वज्जनम् निर्जयेत्खाम् प्रीत्या नारायणाख्यस्त्वमतनरसक प्राप्तवानस्य पार्श्वम् तुष्ट्या दोष्टूयमान स तु विवितवरैर्लोभितो नानुमेने द्रष्टुम् मायाम् त्वदीयाम् किल भक्तितृप्तान्तरात्मा मायादुग्नविज्ञ तदपि मृगयते नो न माश्चर्यहेतो या ते त्वय्या सुभाता कुलजलत गलत्तोयपूर्णाधिकूर्ण सप्तोर्णारासिमग्ने जगति स तु जले सम्भ्रमन् वर्षकोटी दीनप्रैशिष्टदूरे वडदलशयनम् कञ्जिताश्चर्यबालम् त्वामेव श्यामलाङ्गम् वतनसरसिज न्यस्तपादाङ्गुलीकम् दृष्ट्वा त्वाम् हृष्टरोमा वरितमभिगत स्प्रष्टुकामो मुनीन्द्र श्वासेनान्तर्निविष्ठ पुनरिकसकलम् दृष्टभान्विष्टपौघम् भूयो विश्वासवातेर् बहिरनुपतितो वीक्षितस्वत्कटाक्षये मोदाश्लेष्टुकाम मोदा त्वयिपि हिततनौ स्वाश्रमे भ्राग्वदासीत् गौर्याशार्धम् तदग्रे पुरदिततगत स्वप्रियप्रेक्षणार्थी सिद्धानेवास्य दत्त्वा स्वयमयमजरा मृत्युधादीन् गतोऽभूत् एवम् त्वत्सेवयैव स्मररिपुरभि स प्रीयते येन तस्मात् मूर्तित्रय्यात्मकस्त्वम् ननु सकल नियन्तेदिति सुव्यक्तमासीत् द्रंशेऽस्मिन् सत्यलोके वितिहरिपुरभिन् मंदीराण्यूर्धमूर्ध्योप्यूर्धम विकृतिरि भाति वैकुंठलोक तब्य पशुपुले शुद्धसत्क सच्चिब्रह्मत्मा पवनपुरपते पाहि माम् सर्वरोघ कृष्णा कृष्णा मुकुन्ता जनार्दना कृष्णा गोविन्दनारायणहरे अच्युदानन्तमाधवा केशवा सच्चिदानन्तनारायणहरे